गर्गसंहिता खण्डम् वन् गोलोकखण्डम् अध्यायम् इलेवन् कृष्णचन्द्रजन्मवर्णनम् श्रीनारद उवाच परिपूर्णतमः साक्षाश्रीकृष्णो भगवान् स्वयं विवेशवसुदेवस्य मनःपूर्वम् परात्परः सूर्येन्दु वन्य सम्काशो वसुदेवो महामनः बभूवात्यन्तमहसा सा साक्षाद्य इवापराः देवक्यामागदे कृष्णे सर्वे श्यामभयंकरे रराजतेन सागेहे गेहे सौदामिनी यथा तेजोवदीं च दाम् वीक्ष्य कंसप्राहभयादुरः प्राप्तोऽयम् प्राणहन्दा मे पूर्वमेषा न चेदृशी जादमात्रम् हनिष्यामीत्युक्कुतास्ते भयविह्वलः पश्यन् सर्वत्र च हरिम् पूर्वशत्रुम् विचिन्तयन् अको वैरानुबन्धेन साक्षात् कृष्णोऽपि दृश्यते तस्माद्वैरं प्रकुर्वन्ति कृष्णप्राप्त्यर्थमासुराः अध ब्रह्मादयो देव मुनीन्द्रैरास्मदादिभिः शौरिगेकोपरिप्राप्तास्तवं चक्रुः प्रणम्यतं देवाऊजुः यज्जागरादिषु भेषु परं ह्यदे दुर्हे स्विदस्य विचरन्ति गुणाश्रयेण नैतद्विशन्ति महादिन्द्रिय देवः सङ्खास्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिङ्गाः नैवेश्यतुं प्रभुरयं बलिनाम् बलीयान् मायानशब्द उत नो विषयीकरोति तद्ब्रह्मपूर्णमृतम् परमम् प्रशान्तम् शुद्धम् परात्परतरम् शरणं गदा स्मः अंशांशकांशकलाद्यवतार का। वृन्दैरावेशपूर्णसहितैश्च परस्य यस्य सर्वाधय किल भवन्ति तमेव कृष्णम् पूर्णात्परम् तु युगेषु गदागदेषु कल्पेषु चांशकलया स्ववपुर्बिभर्षि अद्यैव धाम परिपूर्णतमम् तनोषि धर्मम् विधाय भुवि मङ्गलमादनोषि यद्दुर्लभं विशदयोगिभिरप्यगम्यं गम्यं द्रवद्भिरमलाशय भक्तियोगैः आनन्दकन्दचरदस्तवमन्दयानम् पादारविन्दमकरन्दरजो दधामः पूर्वं तथाद्रकमनीय वपुष्मयं त्वां कन्दर्पकोडिशदमोहनमद्भुतं च बोलोकधाम दिषणद्युदिमा दधानं राधापदिं धरणि धुर्यधनं दधाम श्रीनारद उवाच नत्वा हरिं ददा देवा ब्रह्माद्यामुनिभिः सह पायन्तस्तं रश्यं सन्तः स्वधामानियुर्मुदा अधमैधिलराजेन्द्रजन्मकाले हरे सदि अम्बरं निर्मलं भूतं निर्मलाश्च दिशोदश उज्ज्वलास्तारका जादाप्रसन्नं भूमिमण्डलम् नदा नद्यसमुद्राश्च सहस्रदलपद्मानि शतपत्राणि सर्वतः विचकानि मरुस्पर्शैः पदग्गन्धिरजांसि च तेषु ने दुर्मधुकरा नदन्तश्चित्रपक्षिणः गन्धाकृदा वायवो ववुः ऋद्धा जनपदाग्रामा नगरामङ्गलायनाः देवाभिप्राणगावो बभूवु सुखसंवृताः देवदुन्दुभयोने दुर्जयध्वनिसमाकुलाः यत्र तत्र महाराज सर्वेषां मङ्गलं परं विद्याघराश्च गन्धर्वा सिद्धकिन्नरचारणाः जगुः सुनायता देवस्तुष्टो वु स्तुतिभिः परम् ननृतोर्दिवि गन्धर्वा विद्याधर्यो मुदान्विताः पारिजातकमन्तार मालती सुमनांसि च मुमुचोर्देवमुख्याश्च गर्जन्तश्च जले भाद्रे बुधे पक्षे धात्रार्क्षे कर्षणे वृषे कर्णेष्ठम्यामर्धरात्रे नक्षत्रे च महोदये अन्धकारावृदे काले देवक्याम देवक्यां शौरिमन्दिरे आविराशिधरिसाक्षाधरण्या मध्वरे अग्निवद पुरदक्षविचित्रहारिणं विलसत् कौस्तुभरत्मधारिणं परिधिुदिनूपुराङ्गदं धृतबालार्क किरीटकुण्डलं चलदद्भुतवन् हि कङ्कणं नवजाम्बो नददिव्यवाससं सतडिघनदिव्यसौभगं चलनीलालकवृन्दभृन्मुखं चलदं श्युतमोहरं परं शुभदं सुन्दरमम्बुजेक्षणं कृतपत्रविचित्रमण्डनं सगदं कोडिमनोजमोहनं परिपूर्णतमं परात्परम् कलवेणुध्वनिवाद्य तत्परं तमवेक्ष्य सुदं यदुत्तमो हरिजन्मोत्सवफुल्लोचनः अथ विप्रजनेषु चाशु वै नियुतं सन्मनः सागवां ददौ हरिमानकडुन्दुभिस्तवैः स्तवनं तं प्रणिपत्य विस्मितः अकरोदुदिदप्रभूदयो गदभीसुदिगृहे कृताञ्जलिः श्रीवासुदेव उवाच एको यप्रकृति गुणैरनेकदासि हर्ता त्वं जनक उदास्यपालकस्त्वं निर्लिप्तस्फटिक श्री भुवनपदे। नमामि दुभ्यं ये दुःसु त्वनलयिवात्र वर्धमानो योऽन्धस्थो बहिरपि चाम्बरं यथाहि आधारो धरणिरिवास्य सर्वसाक्षी तस्मै दे नम इव सर्वगो नभस्वान् भूभारोद्भटः परणार्थमेवजादो गोदेवद्विजनिजवत्सपालकोऽसि गेहे मे भुवि पुरुषोत्तमोत्तमस्त्वं कंसान्माम्भुवनपदे प्रपाहि पापाद श्रीनारद उवाच परिपूर्णतमं साक्षा श्रीकृष्णं श्यामसुन्दरं ज्ञात्वा नत्वाधतं प्राहदेवकी सर्वदेवता श्रीदेवक्युवाच हे कृष्ण हे विगणितान्तपदे परेश गोलोकधामधिषणध्वज अदिदेव पूर्णेश पूर्णपरिपूर्णतमप्रभो मां त्वं पाहि परमेश्वर कंसपाद श्रीनारद उवाच तच्छ्रुत्वा भगवान् कृष्णपरिपूर्णतमः स्वयं सस्मिदो देवकीं शौरिं प्राकस वृजिनार्दनः श्रीभगवानुवाच इयं च पृश्निपदिदेवता च त्वम् पूर्वसर्गेषु तपः प्रजार्थी ब्रह्माज्ञया दिव्यतपो युवाभ्याम् कृतम् परं निर्जलभोजनाभ्याम् कालेषु मन्वन्तरके व्यदीते तपः तदा प्रसन्नो युवयोरभूवम् वरं परं ब्रूदमया तदोक्तम् श्रुत्वा युवाभ्यां कथितं तथैव भूयात्सुतस्त्वत्सदृश किलावयोः तथास्तु चोक्त्वाध गदे मयि प्रजापदी ह्यभूतस्वकृतेन न मत्समकोऽपि जगत्यलं विचार्य तद्वामभवं परेश्वरः श्रीपृश्निगर्भो भुवि विश्रुधपुनर्द्विदीयकालेखमुपेन्द्रवामनः तथा भवं ह्यद्यतमे परात्परो नित्वाध मां प्रापय नन्दमन्दिरम् अधो न भूया भयमौग्रसेनदसुधां समादाय सुखी भविष्यधः श्रीनारद उवाच तूष्णीं भूत्वा हरिस्तत्र तद्भूय पश्यतोस्तयोः दृश्यं ह्यप्रकटं कृत्वा भालो भूत्कौ यधा नडः प्रेंगे धृत्वा धतम् शौर्यैर्यावद्गन्तुम् समुद्यदः तावद्व्रजे नन्दपत्न्याम् योग मायाजनिस्वदः तया शयाने विश्वस्मिन् रक्षके शुस्वपत्सु च द्वार उत्खाटिता सर्वा प्रस्फोट शृङ्खलार्गलाः निर्गदे वसुदेवे च मूर्ध्नि श्रीकृष्णशोभिते सूर्योदये यथा सद्यस्तमो नाश्यो भवत्स्वतः कनेष् व्योम्नि वर्षत्सु सहस्रवदनस्वराड निवारयन् दीर्घपणैरासारं शौरिमन्वगाद ऊर्म्या वर्ताकुला वेगैः सिंहसर्पादिवाहिनी सद्यो मार्गं ददौ तस्मै कालिन्दी सदितां वरा नन्दव्रजं समेत्यासौ प्रसुप्तं सर्वतः शिष्यं यशोदाशयने निधायाश्चुदर्शताम् तत्सुधां समुपादाय पुनर्गे का जगामसः तीर्थ श्रीयमुनां शौरिस्वागरे पूर्ववस्थितः सुदं सुदां वा जादं चा ज्ञात्वा गोपीयशोमदी परिश्रान्दास्वशयने सुवापानन्दनिद्रया अध बालध्वनिं श्रुत्वा रक्षका समुपस्थिताः ऊजुः कंसाय वीराय गत्वा तद्राजमन्दिरं सुदीगृहं त्वरं प्रागात् कंसो वैभयकादरः स्वसाधभ्रातरं प्राहरुदधि दीनवत्सति दी। श्रीदेवक्युवाच सुतामेकां त्वं पुत्रेषु प्रमृतेषु श्रियं हन्तुं न योग्योऽसिभ्रातस्त्वं दीनवत्सलः तेनु नुजाहं हद सुधागारे दा। निपादिदा धातुमर्हसि कल्याणकल्याणीं तनुजां च मे श्रीनारद उवाच अश्रुमुख्या मोहितया समाच्राध्यात्मजाम्बुः प्रार्थितोऽगाद्विनिर्भस्यतां चिक्षिते कलः कुसङ्गनिरधपाभकलो यदुकुलाधमः स्वसुसुधां शिलापृष्ठे गृहीत्वाङ्क्रियोर्ण्यपादयद कंसहस्तात् समुत्पत्यत्वरं सा चाम्बरे गदा सदपत्रे रथे दिव्ये सहस्रहयसेविते मरां दोलिते शुब्रेस्तिदा स्थिदा धृश्यददिव्यधृग सा युधाष्टभुजा माया पार्श्वधैः परिसेविता शतसूर्यप्रदीकाशाकं समाकनस्वन श्रीयोगमायोवाच परिपूर्णतमसाक्षात् भगवान् स्वयम् जादक्व वा तु देहन्दावृधादीनां दुनो शिवै श्रीनारद उवाच युत्युक्त्वा तं तदो देवी गदा विन्ध्याचले गिरौ योगमाया भगवदी बहुनामा बभूवः अध विस्मिदो विस्मितो भूच्छृत्वा मायावचः परं वसुदेवं च मोचयामास बन्धनाद कंस उवाच पापोऽकं पापकर्माकं खलो यदुकुलाधमः युष्मत्पुत्रप्रसन्धारं क्षमध्वं मे कृदं भुवि हे स्व सशृणु शौरे मन्ये कालकृतं त्विदं यन निश्चाल्यमानो वा वायुने वखनावलेः वा विश्वस्तोऽहं देववाक्ये देवास्तेऽभि मृषा गिरः न जानामि क्व मे शत्रुर्जातकौ कथितो नया श्रीनारद उवाच युद्धं कंसस्तदं घ्रियोश्च पतितोऽश्रुमुखो रुदन् चकारसेवां परमां सौहृदं दर्शयं तयोः अहो श्रीकृष्णचन्द्रस्य परिपूर्णतमप्रभोः दानदक्षैकटाक्षैश्च किन्न स्याद्धूमिमण्डले प्रातःकाले तदा कंसप्रलम्बादीन् महासुरान् समाहूय खलस्तेभ्यो वददुक्तं च मायया कंस उवाच जादो मे ह्यं तृद् भूमौ कथितो अनिर्दशान्निर्दशांश्च शिष्यून्यूयम् अनिष्यथ दैत्य उ दैत्याऊजुः सज्जस्य धनुषो युद्धे भवदा द्वन्द्वयो निधाना द्वन्द्वयोगिना तङ्गारेणोद्गदादेव मन्यसेतैः कथं भयम् गोविप्रसाधुश्रुदयो देव देवा दह्य परे विष्णोश्च तनवोह्य नाशे दैत्यबलं स्मृतं जादो यदि महाविष्णुत्ते शत्रुर्यो महीतले अयं चैदद्वधोपायोगवादिनां विहिंसनं युद्धं महोद्भडा दुष्टा दैतेया कंसनोदिदाः दुद्रुभुक्कं गवादिभ्यो जघ्नो जादांश्च बालकान् आ समुद्राद् भूमितले विशन्तश्च गृहे गृहे कामरूपधरा दैत्याश्चेरुसर्पा इवा भवन् उत्पभा उद्भटा दैत्यास्तत्रापि कंसनोदिदाः कपिसुरापोलिखतो भूतग्रस्त इवा भवन् वैदेहमैथिलनरेन्द्र उपेन्द्र भक्तधर्मिष्ठमुख्यसुतपो जनकप्रदापिन् ये दत्सदां च भुवि हेलनमङ्गराजन् सर्वं चिनति बहुधाश्व चतुष्पदार्थान् इति गर्गसंहितायाम् गोलोकखण्डे नारदबहुलाश्वसंवादे श्रीकृष्णचन्द्रजन्मवर्णनम् नाम एकादशोऽध्यायः श्रीनारद उवाच अथ पुत्रोत्सवम् जातं श्रुत्वा नन्द उष क्षणे ब्राह्मणांश्च समाहूय कारयामा समङ्गलं सविधिं जादकं कृत्वा नन्दराजो महामनाः विप्रेभ्यो दक्षिणाभिश्च लक्षं गवां ददौ क्रोश्यमात्रं रत्नसानून् सुवर्णशिखरान् गिरीन् सर्सान् सरर्सां सप्त धान्यानां ददौ विप्रेभ्य आनदः मृदङ्गवीणाशङ्काध्याने दुर्दुन्दुभयो मुहुः कायकाश्च जगुर्द्वारेण नृ दुर्वारयोषितः पदाकैर्केमकलशैर्विधानैस्तोरणैः शुभैः अनेकवर्णैश्चित्रैश्च इस बभौ श्री नन्दमन्दिरं रध्या वीध्यश्च देहल्यो भित्तिप्राङ्गणवेदिकाः तोलिका मण्डपसभा रेजुर्गन्धिजलाम्बरैः गावत्सुवर्णशृङ्ग्यश्च हे ममालालसद्गलाः खण्डामञ्जीरच्छङ्कार चित्रधादु रकृतकम्बलमण्डिताः पीदपुच्छात्सवत्साश्च तरुणीकरचिह्निताः हरिद्राकुङ्गुमयुर्युक्ता चित्रधातुविचित्रिताः बर्हि पुच्छैर्गन्धजलैर्वृषा धर्मधुरन्धराः इदत्तदोविरेज्यश्रीनन्दद्वारिमनोहराः गोवत्साहे मम लाढ्यामुदाकार विराजिताः इतस्ततो विलङ्घन्तो मञ्जीरचरणांसिताः श्रुत्वा पुत्रोत्सवं तस्य वृषभानुवरस्तथा कलावत्यागजारूढो नन्दमन्दिरमाययौ नन्दानवोपनन्दाश्च तथा षड्वृषभानवः नानोपायनसंयुक्ता सर्वे तेऽपि समाययुः उष्णि उष्णीषोपरिमालाढ्यापीदकञ्जुकशोभिताः बर्हगुञ्जा बद्धकेशवनमाला विभूषणाः वंशीधरा वेत्रहस्ता सुपत्रतिलकार्चिताः बद्धवर्णपरिकरा गोपास्तेऽपि समाययुः नृत्यन्तपरि गायन्दो धुन्वन्दो वसनानि च नानोपायनसंयुक्ताश्मश्रूला शिशवः परे हैयं ग वीनदुग्धानां दद्याज्यानां बलीन् बहून् नित्वा वृद्धा यष्टिहस्ता नन्द मन्दिरमाययुः पुत्रोत्सवं व्रजेशस्य कथयन्द परस्परं प्रेमविह्वलभा वैश्वैरानन्दाश्रु समाकुलाः जादे पुत्रोत्सवे नन्द स्वानन्दाश्रुकुलेक्षणः पूजयामास सर्वां स्थिलखाद्यैर् विधानतः गोपौजुः हे वज्रेश्वर हे नन्दजातपुत्रोत्सवस्तथा अनपत्यस्य चदोलमथ किं मङ्गलं परं दैवेन दर्शितं चेदं दिनं वो बहुभिर्दिनैः कृतकृत्याश्च भूदा स्मो दृष्ट्वा श्रीनन्दनन्दनम् हे मोहनेधिदुरात्तमङ्गम् नीत्वा गदिष्यसि यदा लालनभावेव भविता नस्तदा सुखम् श्रीनन्द उवाच भवतामाशिष्यपुण्याजादम् सौख्यमिदम् शुभम् आज्ञावर्ती ह्यम् गोपा गोपानाम् व्रजवासिणम् श्रीनन्दराजसुधसम्भवमद्भुतं च श्रुत्वा विसृज्य गृहकर्म तदैव गोप्यः तूर्णं ययुः सबलयो व्रजराज घेहानुद्यप्रमोदपरिपूरित हृन्महोङ्गाः आनन्दमन्दिरपुरस्वगृहोन्व्रजन्त्यः सर्वदस्तद उदत्वरमाव्रचन्द्यः यानश्लदध्वसनभूषणकेशबन्धा रेजुर्नरेन्द्रपधि भूपरिमुक्तमुक्ताः चङ्गारानूपुरनवाङ्गदहेम चीरमञ्जीरहारमणिकुण्डलमेखलाभिः श्रीकण्डसूत्रभुजकङ्गण बिन्दुकाभिः पूर्णेन्दुमण्डलनवद्युदिभिर्विरेजुः श्रीराजिकालवण रात्रिविशेषचूर्णैर्गोधूम सर्षभयवै करलालनैश्च उत्तर्यबालकमुखोपरि चाशिषस्तः सर्वा दुर्नृप जगुर्जगदुर्यशोदा गोप्य ऊजुः साधु साधु ये शोदेते दृष्ट्या दृष्ट्या व्रजेश्वरी धन्या धन्या परा कुक्षिर्ययायं जनितसुधः इच्छायुक्तं कृतं ते वै देवेन बहुकालदः रक्षबालं पद्मनेत्रम् सुस्मितं श्यामसुन्दरम् श्रियशोदा उवाजा भवदीयदया श्रीर्भर्जादः सौख्यं परं च मे भवदीनामपि परं दिष्ट्या भूया ददः परं हे रोहिणीमहाबुद्धिपूजनं तु व्रजौकसाम् आगतानां सत्कुलानां यथेष्टं गीप्सिदं गुरु श्रीनारद उवाच रोहिणी राजकन्यापि तत्करौ दानशीलिनौ तत्रा विनोदिदा दाने ददावधिमहामनाः गौरवर्णदिव्यवासारत्नाभरणभूषिता व्यचरद्रोहिणी साक्षात् पूजयन्ती व्रजौ कसः परिपूर्णतमे साक्षात् श्रीकृष्णे व्रजमागदे न दत्सु नरदूर्येषु जयध्वनिरभून् महान् दधिक्षीरकृतैर्गोप गोप्यो हैयङ्गवैर्नखैः शिशिचुर्घर्षितास्तत्र जगुरुचैः परस्परं बहिरन्तपुरे जादा सर्वदो दधि कर्दमे वृद्धाश्च स्थूलदेहाश्च पे दुर्हास्यं कृतं परैः सुधा पौराणिकाः प्रोक्तामागधा वंशंसकाः वन्दिनस्त्वमलक् प्रज्ञा प्रस्ताव सदृशोक्तयः वन्दिनत्वमलप्रज्ञा प्रस्ताव सदृशोक्तयः तेभ्यो नन्दो महाराजसहस्रं गाः पृथक् पृथक् वासोऽलङ्काररत्नानि हये भानकिलान् ददौ वन्दिभ्यो मागधेभ्यश्च सर्वेभ्यो बहुलं धनं ववर्षखनवद्गोपो नन्दराजो प्रजेश्वरः निधिसिद्धिश्च वृद्धिश्च भुक्तिर्मुक्तिर्गृहे गृहे गृहे विध्यां विध्यां लुठन्तीव तदिच्छ कस्य चिह्नहि सनत्कुमारकभिलशुकव्यासादिभिः सह हंसदत्तपुलस्याद्यायुर्महा ब्रह्मा जगामः हंसारूढो हेमवर्णो मुकुडीकुण्डली स्फुरन् चतुर्मुखो वेदकर्ता द्योदयन्मण्डलं दिशां तथा तमनुभूताढ्यो वृषारूढो महेश्वरः रथारूढो रविसाक्षात् गजारूढः पुरन्दरः वायुश्च खं जनारूढो यमो महिषवाहनः धनदपुष्पकारूढो मृगारूढः क्षपेश्वरः अजारूढो विधिहोत्रो वरुणो मकरस्थितः मयूरस्थकार्तिकेयो भारदि हंसवाहिनी लक्ष्मी च गरुडारूढा दुर्गाख्या सिंहवाहिनी गोरोपधारिणी पृथ्वी विमानस्था समाययौ दोलारूढा दिव्यवर्णामुख्या षोडशमातृकाः षष्ठी च शिपिकारूढा खड्गिणी यष्टिधारिणी मङ्गलो वानरारूढो भासारूढो बुधस्मृदः गीष्पधि कृष्णसारस्थः शुक्रो गवयवाहनः शनिश्च मकरारूढ उष्ट्रस्तक्सिंहिकासुतः कोडिबालार्कसङ्घाश आययौ नन्दमन्दिरम् कोलाहलसमयुक्तम् गोपगोपीगणाकुलम् नन्दमन्दिरमभ्यत्यक्षणम् स्थित्वा ययुः सुराः परिपूर्णतमम् साक्षात् श्रीकृष्णम् बालरूपिणम् नत्वा दृष्ट्वा तदा देवाश्चक्रुस्तस्य स्तुतिं परां वीक्ष्य कृष्णं तदा देवा ब्रह्मद्या ऋषिभिः सह स्वधामानि ययु सर्वे कर्षिदा प्रेमविह्वलाः इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे श्री श्रीनन्दमहोत्सववर्णनं नामद्वादशोऽध्यायः ओम् अध्यायम् तर्टीन् पूतना उद्धारणम् शौर्यनामयपृच्छार्थं करं दातुं नृपस्य च पुत्रोत्सवम् कथयितुं नन्दे श्रीमधुरां गदे कंसेन प्रेषिदा दुष्टापूदनाकातपारिणी पुरेषु ग्रामघोषेषु चरन्दी कर्खरस्वना अथ गोकुलमासाद्य गोपगोपीगणाकुलं रूपं दधारसादिव्यं वपुषोडशवार्षिकम् नगे केऽपि रुरुधुर्गोपालसुन्दरीं तां च गोपिकाः शचीं वाणीं रमां रम्भां रतिं च क्षिपतीमिव रोहिण्यां च यशोदायां दर्शितायां स्फुरत्कुच अङ्गमादाय तम्बालं लालयन्ती पुनः पुनः ददौ शिष्योर्महाघोरा पालकूडावृदम् स्तनम् प्राणै सार्धम् पपौ दुग्धम् कडुम् रोषावृदो हरिः मुञ्जमुञ्जवदम् तीर्थम् धावन्ती पीडितस्तना नीत्वा बहिर्गदात्तम् वै गदमाया बभूवः पदनेत्राश्वेददात्रा रुदन्तीपदिदा भुवि ननादतेन ना ब्रह्माण्डं सप्तलोकैर्बिलैः सह चचालवसुधाद्वीपैतदद्भुतमिवा भवद दीर्घान् वृक्षान् पृष्टतरे गदान् चूर्णीचकार वपुषा वज्राङ्गेण नृतेश्वर वदन्तस्तेगोपगणवीक्ष्य घोरम् वपुर्महत अस्या अङ्गुलिगो बालोनजीवदिकदाचन न जीवदि कदाचन तस्या उरसि सानन्दम् क्रीडन्तम् सुस्मितम् दुग्धम् पीत्वा जृम्भमाणं तं दृष्ट्वा जगृहस्त्रियः यस्योदया च रोहिण्या निधा यो रसि विस्मिताः सर्वतो बालकं नीत्वा रक्षां चक्रोर्विधानदः कालिन्दी पुण्यमृत्तो यैर्गोपुच्चभ्रमणादिभिः गोमूत्रगोरजोभिश्च स्नापयित्वा त्विदं जगुः गोप्य ऊजुः श्रीकृष्णस्ते शिरपदुवैकुण्ठकण्डमेव हि श्वेदद्वीपपधिकर्णौ नासिकां यज्ञरूपधृक नृसिंहो नेत्रयुक्मं च जिह्वां दशरथात्मजः अधरावबदां ते दु ना, नारनारावणावृषी कपोलौ पातु ते साक्षासनकाद्याकलाहरेः बालं ते श्वेदवाराहो नारदो भ्रूलदे वदु चिबुकं कपिलपादु दत्तात्रेय उरो कन्धौ द्वावृषभक्पादुकरौ मत्स्यप्रपातु ते दोर्दण्डं सततं रक्षेत् प्रधुल पृथुलविक्रमः प्रधु प्रधु उदरं कमठपादुनाभिं धन्वन्धरिश्च ते मोहिनी गुह्यदेश्यं च कठिं वामनो वतु पृष्टं परशुरामश्च तवोरू बादरायणः बलोजानुद्वयं पादुजङ्घे बुद्धप्रपातु ते पादौ पादौ सगुल्फौ च सर्वरक्षाकरं दिव्यं श्रीकृष्णकवचं परम् इदं भगवदा दत्तं ब्रह्मणेनाभिपङ्कजे ब्रह्मणा शम्भवे दुर्वासा श्रियशोमत्यै प्रादा श्रीनन्दमन्दिरे अनेन रक्षां कृत्वास्य कोभिः श्रीयदोमदी विप्रेभ्य प्रददौ महद तदानन्दादयो गोपा आगदा दृष्ट्वा घोराम्बूदनाख्यां बभूवोर्भयविह्वलाः चित्वा कुधारैस्तद्देहं गोपा श्रीयमुना तडे अनेकाश्च चिता कृत्वा दाहयामासुरे वदां यदा लवङ्गश्रीखण्डत्तकारा धूमो दग्धस्य देहस्य पवित्रस्य समुद्धितः अहो कृष्णमृदे कं वा व्रजाम शरणं त्विह पूदनायै मोक्षगदिं ददौ पदितपावनः श्रीबहुलाश्व उवाच केयं वा राक्षसि पूर्वं पूदना बालकादिनी विशस्तना दुष्टभावा परमोक्षं कथम् गदा श्रीनारद उवाच बलियज्ञे वामनस्य दृष्ट्वा रूपमधः परम् बलिकन्या रत्नमाला पुत्रस्नेहम् चकारः एतादृशो यदि भवेद्बालस्तम् हि शुचिस्मितम् पाययामि स्तनम् तेन प्रसन्नं मे मनस्तदा बले परमभक्तस्य सुधायै वा मनोहरिः मनोरथस्तु ते भूयान् मनस्य विवरं ददौ यपूद नामोक्षमिमं शृणोति कृष्णस्य देवस्य परात्परस्य भक्तिर्भवेत्प्रेमयुधापि तस्य त्रिवर्ग शुद्धि किमुमैथिलेन्द्र यदि श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे पुदनामोक्षो नाम त्रयो दशोऽध्यायः ओम् 14 फोर्टीन् शकटासुरतृणावर्त उद्धारः इत्येवं कथितं दिव्यं श्रीकृष्णचरितं वरं यं शृणोदिनदोभक्रिया सकृतार्थो न संशयः श्रीशौनक उवाच सुधाखण्डात्परं मिष्टम् श्रीकृष्णचरितं शुभं श्रुत्वा त्वन्मुखतः साक्षात् कृतार्था स्मो वयं मुनि श्रीकृष्णभक्तशान्तात्मा बहुलाश्वसतां वरः अधो मुनिं किं पप्रच्छ तन्मे ब्रूहि तपोधन श्रीगर्ग उवाच अधराजा मैथिलेन्द्रो अर्षितप्रेमविह्वलः नारदं नारदम् प्राहधर्मात्मा परिपूर्णतमम् स्मरन् श्रीबहुलाश्व उवाच धन्योऽहम् च कृतार्थोऽहम् भवदा भूरिकर्मणा सङ्गो भवदै भगवदीयानाम् दुर्लभो दुर्घटोऽष्टिः श्रीकृष्णस्त्वर्भगः साक्षादद्भुतो भक्तवत्सलः अग्रे चकार किञ्चित्रम् चरित्रम् वदमे मुने नारद उवाच साधु पृष्ठम् त्वया राजन्भवद कृष्णधर्मिणा सङ्घमखलु साधूनाम् सर्वेषाम् विदनो दिशम् ये कदा कृष्णजन्मर्क्षे यशोदा नन्दगेहिनी गोपी गोपान् समाहूय मङ्गलं चाकरोद्विजैः रक्ताम्बरं कनकभूषणभूषिताङ्गं बालं प्रगृह्य कलितां जनपत्मनेत्रं श्यामम् पुरधरिनखावृतचन्द्रहारम् देवान् प्रणम्य सुधनम् प्रददौ द्विजेभ्यः प्रङ्गे निधाय निजमात्मजमाशुगोपी सम्पूज्य मङ्गलदिनेप्रदि गोपीकास्ताः नैवाशृणोत् सुहुदितस्य सुतस्य शब्दम् गोपेषु मङ्गलगृहेषु गदागदेषु तत्रैव कंसकलनोदित उत्कचाख्यो दैत्यप्रभं जनतनुष्यकडं सकेत्य बालस्य मूर्ध्नि परिपादयितुं प्रवर्तकृष्णोभितं किल तदाडपदारुणेन चूर्ण गदेर्थशकडे पतिते च दैत्ये त्यक्त्वा प्रभञ्चनतनुं विमलो बभूव नत्वा हरिं शदहयेन रथेन युक्तो गोलोकधाम निजलोकमलं जगाम नन्दादयो व्रजनाव्रजगोपिकाश्च सर्वे समेत्य युगपत्पृथुकान्तदाहुः यशस्वयं च पदितः शपढः कथं हि जानीधे व्रजसु दाः सुखदाश्च क्षिपन् पादौ रुदन् तदाडपादं शकडे तेनेदम्पतिदम् खलु श्रद्धां न चक्रुर्बालोक्ते गोपा गोप्यश्च विस्मिताः त्रैमासिक क्व बालोऽयं क्व चैतद्भारभृत्तन्वः बालमं के सा यशोदाग्रह शङ्किता कारयामासविधिवद् विधिवद्यज्ञं विप्रै सुदर्पितैः श्रीबहुलाश्व उवाच कोऽयम्पूर्वं तु कुशली दैत्या उत्कचनामभाक अहो कृष्णपदस्पर्शाद् गदो मोक्षं महामुने श्रीनारद उवाच हिरण्याक्षसुदो दैत्य उत्कचो नाम मैथिल लोमशस्याश्रमे गच्छन् वृक्षांश्चूर्णी चकारः तम् दृष्ट्वा स्थूलदेहाढ्यमुत्कचाख्यम् महाबलम् शशापरोष युग्विप्रो विदेहो भवदुर्मदे सर्पकञ्चुगवद्देहोपदत्कर्मविपाकदः सद्यस्तच्चरणो पान्दे पदित्वा प्राहदैत्यराड उत्कच उवाच हे मुने हे कृपा क्रुपा सिन्धो कृपां कुरु ममोपरि ते प्रभावं न जानामि देहं मे देहि हे प्रभो श्रीनारद उवाच तदा प्रसन्नः स मुनिर्दृष्ठं नयशदं विधेहे सदां रोषोऽपि वरदो वरो मोक्षाधक् किमु श्रीलोमस्य उवाच भूया तद्व्यदीदे चाक्षुषान्तरे वैस्वदे मुक्ति भविदा चा हरे श्रीनाथ उवाच तस्माुत्कैत्यस्त मुक्को लोमश तेजस सभ्यो नमोस्तु ये नून समरशापो उत्संगे क्रीडित लालयं लालियंत गृप गिरिभारं न सेहे सावोढुं श्रीनन्दगेहिनी अहो गिरिसमो बालकथं स्यादिति विस्मिता भूमौ निधाय सं भूमौ निधाय तं सद्यो नेदं कस्मै जगादः दैत्यस्त्रणा वर्तो महाबलः जहारबालं क्रीडन्तं वादावर्तेन सुन्दरं रजोऽन्धकारोऽभूत्तत्र खोरशब्दश्च गोकुले रजस्वलानि चक्षुंषि बभूवुर्खटिकाद्वयं ततो यशोदानापश्यत्पुत्रं तं मन्दिराजिरे मोहिदारुदधि घोरान् पश्यन्ती गृहशेखरान् अदृष्टे च पुत्रे पतिता भुवि मूर्चिता मूर्च्छिता उच्चैरुरोदकरुणमृदवत्सा यथा हि गौः रुरुदुश्च तदा प्रेम स्नेह समाकुलाः अश्रुमुख्यो नन्दसूनुम् पश्यन्त्यस्ता इतस्ततः तृणावर्तो नभप्राप्त ऊर्ध्वं वैलक्षयोजनं स्कन्धे सुमेरुवद्बालम् मन्यमानः प्रपीडितः अधकृष्णं कृष्णं दैत्यस्तत्रसमुद्यदः दैत्यस्तत्र समुद्यतः गलं जग्राहतस्यापि मुञ्जमुञ्जे दिगदिदे दैत्ये कृष्णोद्भुतोऽर्भकः गलग्राहणमहदाव्यसुं दैत्यं चकारः तज्योतिशिख्रनश्यामे लीनं सौदामिनी यथा दैत्योम्बराणिपथितशिलायां शिशुना सह विशीर्णावयवस्यापि पतितस्य स्वनेन वै विनेदुश्च दिश सर्वाकम्पितम् भूमिमण्डलम् तत्पृष्ठस्थम् शिष्युम् तूष्णीम् रुदम् त्यो गोपिकास्ततः ददृश्युर्युगपत्सर्वा नीत्वा मात्रे ददुर्जगुः गोप्यावूचु नोग्याशी यशोदे बम लालयुमना क नृणते क्विदृष्ट क्रुद्धासी कथि वै प्राप्तेंधकारे स्वाहा बालम जहाँ दी त्वया निर्घया भूमौ धृतो बालो महाभये श्रीयशोदो वाच न जानामि कथं बालो भारभूतो गिरीन्द्रवद तस्मान् मया भूमौ चक्रवादे महाभये गोप्य ऊचुः मामृषावदकल्याणि हे यशोदे गतव्यधे अयं दुग्धमुखो बालो लकुं कुसुमतूलवद श्रीनारद उवाच तदा गोप्योधगोपाश्च नन्दाद्या आगदे शिष्यौ अदीवमोदं सम्प्रापुर्वदन्धकुशलं जनैः यशोदा बालकं नीत्वा पाययित्वा स्तनं मुहुः आख्रायोरसिवस्त्रेण रोहिणीं प्राहमोहिता श्रीय वाच एको देवेन दत्तोऽयं न पुत्रा बहवश्च मे तस्यापि बहवोरिष्ठा आगच्छन्तिक्षणेन वै अद्य मृत्युमुखान्मुक्तो भविष्यत्किमतः परम् किं करोमि क्व गच्छामि कुत्र वासो भवेदः वज्रसाराश्च ये दैत्यानिर्दयाघोरदर्शनाः वैरं कुर्वन्ति मे बाले दैवदैवकुतः सुखं धनं देहो गृहं सौधो रत्नानि विविधानि च सर्वेषां तु ह्यवशं वैभूयान्मे कुशलीशिशुः हरेरर्चां दानमिष्टं पूर्तं देवालयं शतं करिष्यामि तदा बालोऽरिष्टेभ्यो विजयी यदा ये कबालेन मे सौख्यमन्थयष्टिरिवप्रिये बालम् नीत्वा गमिष्यामि देशे रोहिणीनिर्भये श्रीनारद उवाच तदैव विप्राविद्वांस आगदा नन्दमन्दिरं यशोदया च पूजिता आसनस्थिताः ब्राह्मणा ऊचुः मा शोचं कुरु हे नन्द हे यशो व्रजेश्वरी करिष्यामशिशो रक्षाम् चिरं जीवी भवेदयम् श्रीनारद उवाच इत्युक्त्वा द्विजमुख्यास्ते कुशाघ्रैर्नवपल्लवैः पवित्र पवित्रकलशस्तृग्यजुसाजस्तव पर नैजिवाधान अग्नि संपूज्य विधिव्रक्षा विदधिरे शिशो ब्राह्मणुजु दामोदर पादु पाद जा विष्टरश्रवाः ऊरू पादु हरिर्नाभिपरिपूर्णतमस्वयं कटिं राधापदिपादुपीदवासास्तवोदरम् हृदयम् पद्मनाभश्च भुजौ गोवर्धनोद्धरः मुखं च मधुरानाथोद्वार शिरोवदू पृष्टम् पात्व सुरध्वंसि सर्वदो भगवान् स्वयं श्लोकत्रयमिदं स्तोत्रं यः पठेन् मानवः सदा महासौख्यम् भवेत्तस्य नभयं विद्यते क्वचिद श्रीनारद उवाच नन्दस्तेभ्यो गवाम् लक्षं सुवर्णं दशलक्षकं सहस्रं नवरत्नानां वस्त्रलक्षं ददौ परं गदेषु द्विजमुख्येषु नन्दो गोपान्नियम्य च भोजयामास सम्भूज्य वस्त्राय श्रीबहुलाश्व उवाच तृणावर्तपूर्वकाले कोऽयं सुकृतकृन्नरः परिपूर्णतमे साक्षाच्छ्रीकृष्णे लीनदां गदः श्रीनारद उवाच पांडुदेशोद्भवो राजा सहस्राक्षः प्रतापवान् हरिभक्तो धर्मनिष्ठो यज्ञकृदानकृत्परः रेवातडे वातडे महादिव्ये लताव्यत्रसमाकुले नारीणां च सहस्रेण रममाणो चचारः दुर्वाससं मुनिं साक्षादागदं नननामः तदा मुनिर्ददौ शापं राक्षसो भव दुर्मदेः पुनः घ्र्यौ पतितम् नृपम् रादाद्वरं मुनिः श्रीकृष्णविग्रहस्पर्शात् परमोक्षमवापः इति श्रीगर्गसंहिताया गोलोकखण्डे नारदबहुलाश्वसंवादे शकडासुरतृणावर्तमोक्षो नाम चतुर्दशोऽध्यायः ओम्